बुधग्रहाय विद्महे इन्दुपुत्राय धीमहि तन्नः सौम्यः प्रचोदयात् अस्य श्रीबुधगवचमहामन्त्रस्य गौतमर्षिः अनुट्टुप्छन्दः बुधो देवता यम् बीजम् क्लीं शक्तिः ॐ गीलकम् मम बुधग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः बुधम् च पीतपुष्पसमद्युतिम् ध्याये ज्ञानमयम् देवं प्रसन्नम् च चतुर्भुजम् षड्गशूलकदापानिम् वरमुद्राङ्कितम् प्रभुम् पीताम्बरदम् देवम् पीतमाल्यानुलेपनम् वज्राद्याभरणोपेतम् किरीटमकुटोज्ज्वलम् पीताश्वरतमारुह्य मेरुञ्जान्तम् प्रदक्षिणम् बुधः पादु शिरोदेशम् सौम्यः पादु च पालकम् नेत्रे ज्ञानमयः पातु श्रुतिम् पात्मिन्दुनन्दनः प्राणम् गदादरः पातु भुजौ जानुनी रोगिणी सोनुः पातु जङ्गे फलप्रदः पादौ वानादरः पादो पातु सौम्योऽखिलम् वपुः पीताम्बरतरः पादो, पादो रात्रिम् दिवमनारतम् एतद्धि कवचम् पुण्यम् सर्वोपद्रवशान्तितम् सर्वदुःखनिवारणम् आयुरारोग्यशुभदम् पुत्रपौत्र यः पटे श्रद्धया युक्तश्रुण्याद्वा स्वामितः सर्वान् विन्दति